श्रीगुरुभ्यो नमः हरिः ॐ तच्छयो राविणीमहि गातु यज्ञाय गातु यज्ञपतये दैवी रस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेसगं सन्नो अस्तु द्विपदे ए शं चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ सहस्रशेषा पुरुषः सहस्राक्षसहस्रपा शभोमस्वतो मृत्वा अत्यतिश्रद्दशाङ्गुलं पुरुष एवेदगं सर्वं यद्भूतं यच्च भव्यम् उताम् तत्तस्तस्येषानः यदन्नेनातिरोहति एतावादस्य अतो जायागश्च पूरुषः पादो अस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि त्रिपादुर्ध्व उदयत्पुरुषः पादो ओ पुनः ततो विश्वं यत्क्रापत सा च नानशने अभि विराजो विराजोऽधिपूरुषः सजातो जातोऽत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्या सीताज्यं भ्रीष्म विद्मः शरद्धभिः सप्तशासन् परिधय श्रीसप्तसमिदकृताः देवा यद्यज्ञं तन्वाना अमग्नन् पुरुषं पशुं तैयज्ञं वर्षि प्रोक्षन्ना पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यारिषयश्च ये तस्माद्यज्ञा सर्वहुतः सम्भृतं पृषदाज्यं वशुं गन्स्थागं शक्रि वायव्यान आरण्यान् ग्राम्याश्च ये तस्मा जज्ञा सर्वभूतः नृ चन्दागंसि छन्दागंसि जग्गिरे तस्मान् यजुस्तस्मादजायत तस्मादस्वा अजायन्तम् एकेचो चोभयादतः गावोह जग्गिरे तस्मां तस्माज्जाता अजावयः यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् मुखं किमस्य कौ बाहु कावूरूपादा उच्येते ब्राह्मणो अस्य मुखमासीत् बाहूराजन्यः कृतः रुतदस्य यद्वैष्यः मद्भ्यागम् चन्द्रमा मनसोऽजातः सप्सो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षं कृष्णौ जौ समवर्तत पद्भ्यां भूमेत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्रधीरः नामानि कृत्वा विपदं यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् श्चतस्रः तमेवं विद्वान मृतिह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानः स यत्र पूर्वे साध्या सन्ति देवाः अध्यासंभूतः पृथिव्यैरसा आच्य विश्वकर्मणः समवर्तताधी तस्य तष्टा विदधद्रूपवेति तत्पुरुषस्य विश्वमाजानमग्रे हे वेदाहमेतं पुरुषं महान्तम् आदित्यवैरं तमसा परस्ता तमेवं विद्वान् मृतिः भवति नान्यः पन्था विद्यते अनाय प्रजापति सरति गर्भे अन्तः अजायमानो बहुधा विचार्यते तस्य धीरा परिजानन्ति योनिम् मरीचीनां पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवाना आं पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्रह्मा ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्रां मणो तस्य देवा असन्वसे ऋषते लक्ष्मी अहोरात्रे पार्वे नक्षत्रानि रूपम् अस्ति नो व्यात्तम् इष्टं बणिषाड अमुं वणिषाड सर्वं वणिषाड शान्तिः शान्तिः शान्तिः हरिः ओ